नारायणीयं दशकं फोर्टि फोर् मीटर् गीति गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् हृद्गदहो रातत्वो गर्गमुनिस्त्वद्गृहं विभो गतवान् नन्दोधनन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिना मन्दस्मिदार्द्रमूचे त्वत्संस्कारान्विधातुमुत्सुकधीः यदु वंशाचार्यत्वात् सुनिभृतमिदमार्यकार्यमिति कथयन् गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि कथमस्य नाम गुर्वे सहस्रनाम ह्यनन्दनाम्नो वा इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो सत्तानन्दात्मदां किलाभिलपद जगदकरुषित्वं वा कथयदृशिकृष्णनामते व्यतनोद अन्यांश्च नामभेदान्व्याकुर्वन्नग्रजे च रामादीन् अदिमानुषानुभावन्यगदत्वामप्रकाशयन्पित्रे स्निह्यदि यस्तव पुत्रे मुह्यदि सनमायिकैः पुनः दृह्यति यः सदुनश्ये दित्यवदत्ते मखस्त्वमृषिवर्यः जेष्यति बहुदरदैत्यान्वेष्यदि निजबन्धुलोकममलपदं श्रोष्यति सुविमलकीर्तिरस्यदि भवद्विभूदिमृषिरुचे अमुनैव सर्वदुर्गन्तरिदास्थ कृतास्थमत्र तिष्ठत्वं हरिदेवेत्यनभिलभन्नित्यादित्वामवर्णयत्स मुनिः गर्गेधनुर्गदेस्मिन्नन्दितनन्दादिनन्द्यमानस्त्वम् मद्गदमुद्गदकरुणो निर्गमय श्री मरुत्पुराधीश सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द